अग्नये गायत्राय घनम् दिस् मन्त्रा केन् बि चाण्डर्ड् अट् एनि टैम् एनि डे वाक्यम् अग्नये गायत्रायत्र वृते राधन्तराय वासन्तायाष्टाकपाल इन्द्रायत्रैष्ठोभाय एकादश कपालो विश्वेभ्यो देवेभ्यो जागतेभ्यः सप्तदशेभ्यो वैरूपेभ्यो वार्षिकेभ्यो कपालो मित्रावरुणाभ्या मानुष्ठुभाभ्या मे कविगंशाभ्यां वैराजाभ्यागं शारदाभ्यां पयस्या बृहस्पतये पाङ्क्दाय तृण वायशाक्वराय हैमन्दिकाय चरुः आदिच्छन्दसायत्रयस्त्रिगुंशाय रैवताय शैशिराय द्वादशकपालोदित्यै विष्णुपत्न्यै चरुरग्नये वैश्वानराय द्वादशकपालोनुमत्यै चरु काय एककपालः घन अग्नये गायत्राय गायत्रायाग्नयेग्नये गायत्रायत्रवृदेतृवृदे गायत्रायाग्नयेऽग्नये गायत्रायत्रिवृते गायत्रायत्रिवृदे एत्रिवृते गायत्राय गायत्रायत्रिवृते राधन्तराय राधन्तरायत्रिवृते गायत्राय गायत्रायत्रिवृते राधन्तराय त्रिवृते राधन्तराय राधन्तराय त्रिवृते एवृते राधन्तराय वासन्ताय वासन्दाय राधन्तराय तृवृते ए त्रिवृते राधन्तराय वासन्ताय त्रिवृत इति वृते राधन्तराय वासन्दाय वासन्दाय राधन्तराय राधन्तराय वासन्दायाष्ठा कपालोष्ठा कपालो वासन्दाय राधन्तराय राधन्तराय वासन्दायाष्ठा कपालः राधं तरायेदि राधम् तराय वासन्तायाष्ट कपालोष्ट कपालो वासन्दाय वासन्दायाष्ट कपाल इन्द्रायेन्द्रायाष्ट कपालो वासन्दाय वासन्तायाष्टा कपाल इन्द्राय अष्ट कपाल इन्द्रायेन्द्रायाष्टा कपालोष्ट कपाल इन्द्रायत्रैष्टो भायत्रैष्टो भायेन्द्रायाष्ट कपालोष्ट कपाल इन्द्रायत्रैष्टो भाय अष्ट कपाल इत्यष्ट कपालः इन्द्रायत्रैष्टोभा यत्रैष्टोभायेन्द्रायेन्द्रायत्रैष्टोभाय पञ्चदशाय पञ्चदशा यत्रैष्टोभायेन्द्रायेन्द्रायत्रैष्टोभाय पञ्चदशाय त्रैष्टोभाय पञ्चदशाय पञ्चदशायत्रैष्टो भायत्रैष्टोभाय पञ्चदशाय बारहताय बारहदाय पञ्च दशायत्रैष्टोभायत्रैष्टोभाय पञ्चदशाय पञ्चदशाय बर्हदाय बर्हदाय पञ्चदशाय पञ्चदशाय बारहदायग्रैष्मा यग्रैष्माय बर्हदाय पञ्चदशाय पञ्चदशाय बारहदाय ग्रैष्माय पञ्चदशायेदि पञ्च दशाय वारहदायग्रैष्मायग्रैष्माय वर्हदाय वारहदायग्रैष्मा यैकादशकपाल एकादशकपालो ग्रैष्माय वारहदाय वारिहदायग्रैष्मा यैका दशकपालः ग्रैष्मा यैकादशकपाल एकादशकपालो विश्वेभ्यो विश्वेभ्य एका दशकपालो विश्वेभ्यः एकादशकपालो विश्वेभ्यो विश्वेभ्य एकादशकपाल एकादशकपालो विश्वेभ्यो देवेभ्यो देवेभ्यो विश्वेभ्य एकादशकपाल एकादशकपालो विश्वेभ्यो देवेभ्यः एका दशकपाल इत्येका दशकपालः विश्वेभ्यो देवेभ्यो देवेभ्यो विश्वेभ्यो विश्वेभ्यो देवेभ्यो जगतेभ्यो जागदेभ्यो देवेभ्यो विश्वेभ्यो विश्वेभ्यो देवेभ्यो जागदेभ्यः देवेभ्यो जागदेभ्यो जागदेभ्यो देवेभ्यो देवेभ्यो जागदेभ्य सप्तदशेभ्य सप्त दशेभ्यो जागतेभ्यो देवेभ्यो देवेभ्यो जाकतेभ्यः सप्त दशेभ्यः जाकतेभ्यः सप्त दशेभ्यः सप्त दशेभ्यो जाकतेभ्यो जागतेभ्यः सप्त दशेभ्यो वैरूपेभ्यो वैरूपेभ्यः सप्त दशेभ्यो जागतेभ्यो जागदेभ्य सप्तदशेभ्यो वैरूपेभ्यः सप्तदशेभ्यो वैरूपेभ्यो वैरूपेभ्य सप्तदशेभ्य सप्तदशेभ्यो वैरूपेभ्यो वार्षिकेभ्यो वार्षिकेभ्यो वैरूपेभ्यः सप्तदशेभ्यः सप्तदशेभ्यो वैरूपेभ्यो वार्षिकेभ्यः सप्तदशेभ्य इति सप्तदशेभ्यः वैरूपेभ्यो वार्षिकेभ्यो वार्षिकेभ्यो वैरूपेभ्यो वैरूपेभ्यो र्षिकेभ्यो द्वादशकपालो द्वादशकपालो वार्षिकेभ्यो वैरूपेभ्यो वैरूपेभ्यो वार्षिकेभ्यो द्वादशकपालः वार्षिकेभ्यो द्वादशकपालो द्वादशकपालो वार्षिकेभ्यो वार्षिकेभ्यो द्वादश कपालो मित्रा वरुणाभ्यां मित्रा वरुणाभ्यां द्वादश कपालो वार्षिकेभ्यो वार्षिकेभ्यो द्वादश कपालो मित्रा वरुणाभ्याम् द्वादशकपालो मित्रावरुणाभ्यां मित्रावरुणाभ्यां द्वादशकपालो द्वादशकपालो भाभ्याम मित्रावरुणाभ्यां द्वादशकपालो द्वादशकपालो मित्रावरुणाभ्या मानुष्टुभाभ्याम् द्वादशकपाल इति द्वादशकपालः मित्रा वरुणाभ्यामानुष्टुभाभ्यामानुष्टुभाभ्यां मित्रा वरुणाभ्यां मित्रा वरुणाभ्यामानुष्टुभाभ्यामेकविग्वम् साभ्यामेकविगुं साभ्या मानुष्टुभाभ्यां मित्रा वरुणाभ्यां मित्रा मानुष्टुभाभ्यामेक विगुं साभ्यां मित्रा आनुष्टुभाभ्या मे कविः गं साभ्या मे कविगं साभ्या मानुभ्या वैराजाभ्यां वैराजाभ्या मे साभ्या मानुष्टुभाभ्या मानुष्टुभाभ्यामेकविग्ं साभ्यां वैराजाभ्याम् आनुष्टुभाभ्यामित्यानुस्तु भाभ्याम् एकविग्ं साभ्यां वैराजाभ्याम् वैराजाभ्या मे कविगुं वैराजाभ्यागं शारदाभ्यागं सारदाभ्यां वैराजाभ्या मे कविगुं साभ्या शारदाभ्याम् एकविगं साभ्यामित्येकविगं साभ्याम् वैराजाभ्यागं शारदाभ्यागं शारदाभ्याम् वैराजाभ्याम् वैराजाभ्यागं शारदाभ्याम् पयस्या शारदाभ्यां वैराजाभ्यां वैराजाभ्यागं शारदाभ्यां पयस्या शारदाभ्यां पयस्या पयस्या शारदाभ्यागुं शारदाभ्यां पयस्या बृहस्पदये बृहस्पदये पयस्या शारदाभ्यागुं शारदाभ्यां पयस्या बृहस्पतये पयस्या बृहस्पदये बृहस्पदये पयस्या पयस्या बृहस्पतये पाङ्क्ताय पाङ्क्दाय बृहस्पदये पयस्या बृहस्पदये पाङ्क्दाय बृहस्पदये पाङ्क्य पाङ्क्दाय बृहस्पदये बृहस्पदये पाङ्क्ताय तृणवाय तृणवाय पाङ्क्य बृहस्पदये बृहस्पदये पाङ्क्य तृणवाय पाङ्क्ताय तृणवायतृणवाय पाङ्क्ताय पाङ्क्तायतृणवाय शाक्वराय शाक्वराय तृणवाय पाङ्क्ताय पाङ्क्ताय तृणवाय शाक्वराय तृणवाय शाक्वराय शाक्वराय तृणवाय तृणवाय शाक्वराय हैमन्दिकाय हैमन्दिकाय शाक्वराय तृणवाय तृणवाय शाक्वराय हैमन्दिकाय तृणवायेदित्री नवाय शाक्वराय हैमन्दिकाय हैमन्दिकाय शाक्वराय शाक्वराय हैमन्दिकाय चरुश्चरोर्हैमन्दिकाय शाक्वराय शाक्वराय हैमन्दिकाय चरुः हैमन्दिकाय चरुश्चरोर्हैमन्दिकाय हैमन्दिकाय चरुः सवित्रे सवित्रे चरुर्हैमन्दिकाय हैमन्दिकाय चरुः सवित्रे चरुः सवित्रे सवित्रे चरुश्चरुः सवित्र आदिच्छन्दसाय आदिच्छन्दसाय सवित्रे चरुश्चरु सवित्र आदिच्छन्दसाय सवित्र आदिच्छन्दसा यादिच्छन्दसाय सवित्रे सवित्र आदिच्छन्दसायत्र यस्त्रिगुं सायत्र यस्त्रे सवित्रे सवित्र आदिच्छन्दसा यत्रयस्तृगुं शय आदिच्छन्दसायत्रयस्त्रिगुं शायत्रयस्तृगुं शाय रैवताय रैवतायत्रयस्तृगुं शायादि छन्दसायादि त्रयस्तृगुं शाय रैवताय रैवताय त्रयस्तृगुं शायत्रयस्तृगुं शाय रैवताय शैशिराय शैशिराय रैवताय त्रयस्तृगुं शाय त्रयस्तृगुं शाय रैवताय शैशिराय त्रयस्तृगंशाय द्वित्रयः तृगंशाय त्र रैवताय शैशिराय शैशिराय रैवताय रैवताय रै शै शि राय द्वादश कपालोद्वादश कपाल शैषि राय रैवताय रैवताय शैशि राय द्वादश कपालः शै राय द्वादश कपालो द्वादश कपालशैशिराय शैशिराय द्वादश कपालो द्वितीया आदित्यै द्वादश कपाल शैशिराय शैशिरायद्वादश कपालो दवितीयै द्वादश कपालो दवितीया अदित्यै द्वादश कपालो द्वादश कपालो विष्णुपत्न्यै विष्णुपत्न्या अदित्यै द्वादशकपालो द्वादश कपालोदित्यै विष्णुपत्न्यै द्वादशकपाल इति द्वादश कपालः अदित् ष्णु पत्नी विष्णु पत्न्या आदित्य आदित्यष्णु पत्न्यारुश्च रो विष्णो पत्न्या आदित्य आदित्यै विष्णु पत्न्याय चरुः विष्णो पत्न्याय चरुश्च रो विष्णो पत्न्या विष्णो पत्न्या चरुरग्नयज्ञये चरुर्विष्णुपत्न्यै विष्णुपत्यै चरुरग्नये एुपत्न्या यदि विष्णुपत्न्यै चरुरग्नयेग्नये चरुश्चरुरग्नये वैश्वानराय वैश्वानरायग्नये चरुश्चरुरग्नये वैश्वा नराय अग्नये वैश्वा नराय वैश्वा नरायाग्नयेग्नये वैश्वा नराय द्वादश कपालो द्वादश कपालो वैश्वा नरायाग्नयेग्नये वैश्वा नराय द्वादश कपालः वैश्वाराय द्वादश कपालो द्वादश कपालो वैश्वानराय वैश्वानराय द्वादश कपालोनुमत्या अनुमत्यै द्वादश कपालो वैश्वानराय वैश्वानराय पालोनुमत्या अनुमत्याय द्वादश कपालो द्वादश कपालोनुमत्यै चरुश्चरुरनुमत्यै द्वादश कपालो द्वादश कपालोनुमत्यै चरुः द्वादश कपाल इति द्वादश कपालः अनुमत्यै चरुश्चरुरनुमत्या अनुमत्यै चरुकाय कायश्चरुरनुमत्या अनुमत्यै चरुकायः एककपाल एककपालकायश्चरुश्चरुक्काय एककपालः काय एककपाल एककपालकायकाय एककपालः एककपाल इत्येककपालः